मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायम् त्रि सूर्यवरप्रदानम् श्रीगणेशाय नमः सूर्य, श्री सूर्य उवाच तदो काश्यां जादो महर्षयः विस्मितो मानसेत्यन्तम् किमाधारमिदं भवेद् अहमात्मा च सर्वेषामात्मनो मरणं कथं मृदे जगत् सर्वं केन जीवयुतं कृतम् अहं च जीविधकेन नाहमात्मा शरीरिणां मोहयुक्ततया व्यर्थं गर्विष्ठः वै अदोहं काननं यास्ये त्यक्त्वा सर्वं विशेषतः यदा धारं तं भजिष्यामि नित्यदा निःसृदोऽहं गृहं त्यक्त्वा तत्र मां विधिरब्रवीद सान्दयित्वा स वेदानां शृणुसूर्यरहस्यं यत् सर्वेभ्यः शान्तिदायकम् भवितासि ततः शान्धः किमर्थम् श्राम्य दे मुधा आत्मनो मरणम् नास्ति ब्रह्म वेदे ब्रह्मणां परिरूपेण संस्थितो गणनायकः तस्मान्नाविधानीह ब्रह्माणि प्रोद्भवन्ति वै कश्यपात्मज सर्वत्र योगेन च जसा स तिष्ठति तस्मिन् स्थिरे कथं विश्वं तन्नश्यदि वदस्व माम् त्वं पश्य पश्य पुत्रत्वं प्राप्तश्च वरदानदः तत्राज्ञानावृतत्वेन पूजितो न गणाधिपः तेन विघ्नसमुत्पन्नो विपरीतमयः परः आत्मनो मरणं पश्य तव प्राप्तं भजस्वतम् तेन सर्वं शुभं पूर्णं भविष्यति रवे पुनः योगशान्तिधरस्त्वं वै गणपत्यो भविष्यसि हर्यमोवाच इति श्रुत्वा विधेर्वाक्यं विस्मितोऽहं वदामि तत् ज्ञानार्थं गणराजस्य शृणुध्वं मे विचेष्टितम् अहो ब्रह्मं त्वया स्वामिन् बोधितोऽहंविशेषतः संशयं तत्र जातं मेच्छेदयस्वपितामः योगशान्तिधरपूर्णो गणेशः परिकीर्तितः करोति स कथं विघ्नं विकारी वदस्वी ब्रह्मोवाच शृणुसूर्यमहाप्राज्ञवचः संशयनाशकं गणेशभक्तस्त्वं येन भवितासि महाप्रभो योगशान्तिमयपूर्णो गणेशश्चैव निश्चितं तेन नानाविधं विश्वं ब्रह्ममानद तत्र मायामयोमोहसर्वत्र भ्रान्तिदायकः तेन भ्रान्तिसमायुक्ते जगद्ब्रह्म बभूवधुः तयोर्मोहविनाशार्थं योगमार्गं गजाननः चकार सर्वशान्तेभ्यः शान्तिदं योगसेवया तत्र तस्य कलां चाये ब्रह्माकाराशिवादयः ब्रह्मभावेन गर्वेणा भवन्स्व ब्रह्मणि तेभ्यः शान्तिप्रदानार्थं विघ्नदा गजाननः भवते तेन ते सर्वे गर्वहीना भवन्ति वै गर्वहीनस्वभावेन योगमिच्छन्ति शाश्वतं मूलभूतं च सर्वेषां जगतां ब्रह्मणां रवे साधयित्वा महायोगं शान्तिरूपा भवन्तिते तत्र विघ्नहरोडुण्डिस्तेषां भवति सर्वदा तदो विघ्नेश्वरं देवं भजन्ते शान्तिधारकाः योगशान्तिमयं पूर्णं भक्तिभावसमन्विताः ये तदर्थं गणेशान् कुरु दे विघ्नमुत्तमं देवर्षीणां च साधूनां दुष्टानां नैव ब्रह्मणो गिरमाकर्ण्यप्रसन्नः सविता पुनः विधिं जगादयोगार्थं सर्वज्ञं भक्तिसंयुतः सूर्य उवाच वदब्रह्मन् गणेशस्य प्राप्त्यर्थं योगमुत्तमं साधयित्वा गणेशोऽहं भविष्यामि विधेयदः ब्रह्मो वाचा त्वया जानासि ब्रह्मवाच सम्यम वत्सि विशेषतः अश्यपा जातासमृत अधुना शृणुसर्व गणेश्ञ साधय गणेशन काल प्रभवष्यस मायाशक्तिरसद्रूपा भेदाकारा महामते जानीहि तत्र सर्वात्मा च सद्रूप उच्यसे तयो स्रष्टा सदानन्दो विष्णुः साम्यप्रधारकः त्रिभिर्हीनः शिवो व्यक्तस्त्रिभिर्जानीहि संयुतः चतुर्नां चैव संयोगे स्वानन्दः परिकीर्तितः परब्रह्म संयोगात्मकमुच्यते स एव गणराजस्तु मायाकेलक उच्यते संयोगाभेदभावेन जगदि अयोगे माययाहीनो गणेशो ब्रह्मवाचकः सर्वसंयोगहीनश्चासमाधिसुखदायकः संयोगायोगयोर्योगे गणेशशान्तिवाचकः योगशान्तिप्रदसोऽपि शान्तिनां शान्तिरुच्यते मनोवाणीमयं सर्वं गकाराक्षरवाचकम् मनोवाणीविहीनं यत्तज्जानीहिणकारजम् तयोस्वामी गणेशानो ब्रह्मणां ब्रह्म उच्यते सामवेदे रवेपश्य तं भजस्वविधानदः द्विवीथ त्य माया वै सिर्बुद्धिश्च्योगे गणनायक चित पंच विधम पुत्रबुद्धि न संशय उच्य दिधिश्वर्य भोगभेदय पंचसू तयोर्बिम्बिस्वरूपं यज्जहि तद्योगसेवया शान्तियोगधरः पुत्रभविष्यसि न संशयः एवमुक्त्वा गणेशस्य ददौ मन्त्रम् षडक्षरं तस्मै सूर्याय पूर्णं सविधियुक्तं विधियुक्तम् पितामहः विधिम् प्रणम्य च वनं व्ययौ तताप तप उग्रं स निराहारपरायणः जजापहृदि सन्ध्याय गणेशं मन्त्रमुत्तमं एवं वर्षसहस्रेण प्रसन्नोऽभूद् गजाननः तं ययौभक्तिभावेन सुप्रीदसूर्यमादराद स्वगणै सेवितः साक्षाद् बोधयामास विनप गणेश उवाच भो सूर्यृणुमतस्व वरासया महाभाग तपसा तोषित श्रुवा गणेश बोध संयु दृष्टि गणपदंभग्रिया सुत्त तौ भ्रमान्विदः तं प्रणम्य पूजयत्स यथाविधिगजाननं तुष्ठावसुमनाभानुपुरो बद्धाञ्जलिस्थितः भानुरुवाच नमस्ते विघ्ननाथाय विघ्नकर्त्रे दुरात्मनां भक्तानां विघ्नहर्त्रे ते गणेशा नमो नम चुर्बाधराय मूषकवाहनाये नाकयजोपीतायिशेषा ना ते नम महोदराय देवाय सिद्धि बुद्धि युतायते, शूर्पकर्णाय सर्वाय चैकदन्ताय वै नमः गजवत्रधरायैव भालचन्द्राय ते नमः चिन्तामणिधरायैव हृदये ते नमो नमः रक्ताम्बराय रक्ताय नानाभूषणशालिने अमेयाय नमस्तुभ्यं नानालीलाकराय च अनाधाराय सर्वेषामाधाराय च ते नमः स्वानन्दवासिने तुभ्यमिक्षुसागरकेलिने हेरम्बाय नमस्तुभ्यं लंबोदर नमो नमः जगतां ब्रह्मणां पात्रे ब्रह्माधीशायते नमः निराकाराय पालकाय नमो नमः साकाराय चभो धुण्ढे ताभ्यां योगाय ते नमः योगशान्तिप्रदात्रे ते योगशान्तिमयाय च योगिभ्यो योगदात्रे ते योगेशाय नमो नमः एवं स्तुवदि सूर्ये च भक्तिरसः समन्विते अकस्माद्बाष्पकण्ठस्सरो माञ्जो बभूवः पुलकाङ्गिददेहं तं दृष्ट्वा खिन्नमिव स्थितम् जगाद गणनाधो वै सूर्यं भक्तिरसलुत गणेश उवाच याद स्त्रीय सर्वदं भवद भुक्ति मुक्ति प्रदम भानो मम प्रीतिवर्धनम यदिचि तद सफल प्रभव्य पठतां शृण्वतां चैव सदानन्दप्रवर्धनं त्वं तु मत्तो वरान् ब्रूहितान् दास्यामि न संशयः तपसा भावितोऽत्यन्तं भृशं स्तोत्रेण तोषितः एवमुक्तो गणेशेन भानुर्भक्तिपरायणः उवाचतम तं गणाधीशं हर्षनिर्भरमानसः सूर्य उवाच तुष्टोऽसि गणनाथत्वं यदि दास्यसि मे तदा भक्तिं दृढां तेवै वै देहिनाथ नमोऽस्तु ते दे। अन्यं यदा स्मरामि त्वां तदा दरुशयरूपकम् यद्यदिच्छामि तत्तन्मे सफलं भवदु प्रभो ॐमित्युक्त्वा गणेशानस्तत्रैवान्तरधीयत सूर्यखिन्न इवा तिष्ठत्तत्रैवं तदस्तेन ततस्तेन गणेशस्य स्थापिता मूर्तिरादराद ब्राह्मणैः सहभानुस्तां पूजयामास भक्रिदः ततः स्वगृहमागत्य मूर्तिम् कृत्वाहमादराद पूजयामि सदा देवं गणेशानं भजामिदं यद सर्वं मदीयं वश्चेष्ठितं कथितं द्विजाः वालकिल्यामहाभागा किं भूय श्रोतुमिच्छथ ॐ तत्सदितिः श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये कण्डे महोदरचरिते सूर्यवरप्रधानं नाम तृतीयोऽध्यायः ओम्